अथ षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलम् कार्यं कर्म करोति यः स संन्यासी च योगी च न निरग्निर्न चाक्रियः यं संन्यासमिति प्राहुः योगं तं विद्धि पाण्डव न संकल्पो योगी भवति कश्चन आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते योगारूढस्य तस्यैव शमःकारणमुच्यते यदाहिनेन्द्रियार्थेषु न कर्म स्वनुषज्यते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते उद्धरेदात्मनात्मानं नात्मानमवसाधयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः बन्धुरात्मात्मनस्तस्य येन आत्मैवात्मना जितः अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः सुहृन्मित्रायुदासीन मध्यस्तद्वेष्य बन्धुषु साधुष्वपि च योगी युञ्जीत सततम् आत्मानं रहसि तचिता निराशीर पर्रह देशे प्रतिष्ठाप्य स्थिर नात्युछित नातीनीचं चैलाजिनकुशोत्तर तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासनेयुञ्ज्यात् योगमात्मविशुद्धये समं कायशिरोग्रीवं धारयन्नचलं स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वम् दिशश्चानवलोकयन्ति प्रशान्तात्मा विगतभिः ब्रह्मचारिव्रते स्थितः मनःसंयमयमच्चित्तो युक्त आसीत मत्परः सदात्मानम् योगि नियतमानसः शान्तिं निर्वाणपरमां मत्संस्तामधिगच्छति नात्यश्नतस्तु योगोऽस्ति न ना चैकान्तमनश्नतः न चातिस्वप्नशीलस्य जाग्रतो नैव युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते निःस्पृहः युक्त इत्युच्यते तदा यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो यत्रो परमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्या दुःखसंयोगवियोगं योगसंयितं सनिश्चयेन योक्तव्यो योगो निर्विण्णचेतस सङ्कल्पप्रभवां कामां त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामं विनियम्य यसमं ततः शनै शनैरुपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा चिन्तयेत् यतो यतो निश्चरत् मनश्चञ्चलमस्थिरं ततस्ततो नियम्यैदत् आत्मन्येव वशं नयेत् प्रशान्तमनसं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः सुखेन ब्रह्मसं स्पर्शम् अत्यन्तं सुखमश्नुते सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः व्यो मां पश्यति सर्वत्र सर्वं च मणिपश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं व्यो माम् धचत्येकत्वमास्थितः सर्वथा वर्तमानोऽपि सयोगी योगी मयि वर्तते आत्मरूपं येन सर्वत्र समं पश्यति अर्जुन सुखं वा यदि वा दुःखं स परमो मतः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः सा मधुसूदन एतस्याहं नपश्यामि पश्यामि चञ्चलत्वात् स्थितिं स्थिरा चञ्चलं हि मनः कृष्णा प्रमाधिबलवदृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्रीभगवानुवाच असंशयं महाबाहो मनोदुर्निग्रहं चलं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्रापयिति मे मतिः वश्यात्मना तु यतता शक्योवाप्तुमुपायतः अर्जुन उवाच अयतिश्रद्धयोपेतो योगाचलितमानसः अप्राप्य योगसंसिद्धिं कां कृष्ण गच्छति कच्छिन्नो भयविभ्रष्टः छिन्नाभ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि एतन्मे संशयं कृष्ण छेत्तुमर्हस्य शेषतः त्वदन्यः संशयस्यास्य चेत्ता न हि उपपद्यते श्रीभगवानुवाच पार्थ नैवेहनामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वती समाः शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरं लोके जन्म यदीदृशं तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकं यततेचततो च ततो भूयः संसिद्धौ कुरु पूर्वाभ्यासेन तेनैव ्रियते ह्यवशोऽपि सः जिज्ञासुरपि योगस्य शब्दब्रह्मादिवर्तते प्रयत्नाद्यतमानस्तु योगी संशुद्ध किल्दिशः अनेकजन्मसंसिद्धः ततो याति परां गतिम् तपस्वी्योध योगी ज्ञाभ्यो मत कर्मिभ्याधि योगी योगी तस्गी भवाुन योगिनाषा मद्गतेनात्मना श्रद्धावान् भजते यो म समे युक्ततमो मतः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः